श्रीमद्भागवत् महापुराणं नवं स्कन्ध द्वाविंशोऽध्यायः क्षेत्रे प्रजस्य वै भ्रातुर्मातृक्तं वातराजनः धृतराष्ट्रं च पाण्डुं च विजुरं चाप्यजयनत गान्धार्यां धृतराष्ट्रस्य यज्ञे पुत्रशतं नृप तत्र दुर्योधनो ज्येष्ठो दुश्शला चापि कन्यकाम् सापाण् मैथुनरुद्धस्य पाण्डोकुञ्चां महारसाः जाता धर्मनिरेन्द्रेभ्यो युधि युद्धिस्ट, युधिष्ठिरमुखास्त्रयः नकुलः सहदेवश्च माद्याम्ना सत्यधस्रयोः द्रौपद्यां पञ्चपञ्चभ्य पुत्रास्ते पितरो भवन् युधिष्ठिरात् प्रतिविन्ध्य सुसेनो मृकोदरात् अर्जुना श्रुतकीर्तिस्तु सथानेकसुनाकुलिः सः देवः सुतो राजञ्चित्कर्मा तथा परे युधिरा युधिष्ठिरात्तु पौरव्यां देवकोथघटोत्कचः भीमसेनाद्यिम्बायां काल्यां सर्वगतस्ततः सह देवासुहोत्रं तु विजयासूतपार्वती करेणुमत्यां नकुलो निर्मित्रं तथार्जुनः हिरावन्तमलुप्यां बहिसुतायां बभ्रुवाहनम् मणिपूरपते सोऽपि तत्पुत्रपुत्रकाशितः तव तात सुभद्रायाम् अभिमन्युर्जायत सर्वातिरथजयन्दिर उत्तरायां ततो भवान् परीक्षिणेषु कुरुषु दोडे ब्रह्मास् तेजसा तं च कृष्णानुभावेन स जीवो तमे तमेतमे मे तन्यास्तात् जन्मे जयपूर्वकाः श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् जन्मेजयस्त्वां विजित्वा तच्छकान्निधनं गतं सर्पान्वै सर्पयागाग्नौ स होषतीशान्वितः कावशेयं पुरोधायतुरं तुरगमेधयाट् समन्तात् पृथ्वीं सर्वां दित्वा यप्स्यते चाध्वरे तस्य पुत्रः सुता लेको याज्ञवल्क्यात्रयीं पठन् अस्त्रज्ञानं क्रियाज्ञानं कोनकात् परिमेषति सहस्राणीकं तत्पुत्रं तस्यैवाशुमेध च असीम कृष्णस्तस्यापि नेमि चक्रस्तुतस्थः गदाह्वये सिते नद्या कोशाम् व्यां साधु पश्यते उक्तस्तित्र रथं तस्माद्गविरथः स्थितः तस्माच्च वृष्टिमांस्तस्य सुशेरोथ महीपते सुनीतस्तस्य भविता नृचोरिजत सुखी नदः परिप्लवशुतस्तस्मान्मेधावी सुनीयात्मज नृपजस्ततो दुर्तिमेतस्माज्जनिष्यते त्रिवेर्बृहद्रथस्तस्माच्छतानीकसुदासज शतानीकादुर्दमनं तस्यापद्यं बहि नरः दण्डपाडे नृमेस्य क्षेमको भविता नृपः ब्रह्मचत्रस्य वै प्रोक्तो वंशो देवर्षि सत्कृतः क्षेमकं प्राप्य राजानं संस्थां प्राप्यति वै अथमागतराजानो भवितारो वदामि ते भविता सह देवस्य मार्जारीर्यवाः ततो युतायुतस्तस्यापि निर्मित्रोऽथ तस्तुतः सुनक्षत्र सुनक्षत्राभिहस्तेनोऽथ कर्मजे ततः सन्देयाद्भिप्रसिचित्तस्य भविष्यति हेमोऽथ सुवृतस्तस्माद्धर्मसूत्र समस्ततः दमस्य नोऽथ सुमती सुवलोचनिता ततः सुनीथ सत्यजिद्विस्पृं जिर्य त्रिपुञ्जयः भारिदथाश्च भूपाराभाभ्याशाहस्रुवःसरं श्री श्रीमद्भागुते महापुराणे पारमहंसां सहितायां नवस्कन्धे द्वाविंशोऽध्यायः